अनुप्रवेशे यद्वीरा कृतवान्स्त्वं मम प्रियम् सर्वं तदनुजानामि ललीकं न च मे हृदि गुरोरनुप्रवेशो हि नोपघातो यवीयसः यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः निवर्तस्व महाबाहो कुरुष्व मम न हि ते धर्मलोपोऽस्ति अर्जुन उवाच न व्याजेन धर्मं इति मे भवतः श्रुतम् न सत्याद्विचलिष्यामि सत्येनायुधमालभे आज्ञातुममदातव्या भवता कीर्तिवर्धना भवदाज्ञामृते किञ्चिन्न कार्यमिति निश्चितम् वैशम्पायन उवाच सोभ्यनुज्ञाय राजानम् वनचर्याय दीक्षितः वने द्वादश वर्षाणि वासायानुजगामः इति महाभार आदिपर्वण अर्जुन वनवास अर्जुन द्वादशाधिक अर्जुनतीर्थयात्रायाँ द्वादाध्याय